अथैकादशः सर्गः स बभूवकृशो राजा मैथिलीकाममोहितः असन्मानाच्च सुहृदाम् वैदेहीमनुचिन्तयन् अतीतसमये अती तस्मिन् वैयुधिरावणः अमात्यैश्च सुहृद्भिश्च सहे हेमजाल विततम् मणिविद्रुमभूषितम् उपगम्य विनीताश्वमारुरोहमहारथम् तमास्थाय रथ श्रेष्ठम् महामेघसमस्वनम् प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति असिचर्मधरायोधा चर्मधरा योधाः पुरस्तात् सम्प्रत नाना नानाविकृतवेषाश्च नानाभूषणभूषिताः पार्श्वतः पृष्ठतश्चैनम् परिवार्ययुस्तदा रथैश्चातिरथा शीघ्रम् मत्तैश्च परवारणैः अणूत्पेतुर्दशग्रीवमा क्रीडद्भिश्च वाजिभिः गदापरिघहस्ताश्च शक्तितोमरपाणयः परश्वधराश्चान्ये तथान्येषूलपाणयः ततस्तूर्यसहस्राणाम् सञ्जय्ये निःस्व नो महान् तुमुलः शङ्खशब्दश्च सभाम् गच्छति रावणे सनेमिघोषेण महान् सहसाभिनिनादयन् राजमार्गम् श्रियाजुष्टम् प्रतिपेदे महारथः विमलम् चातपत्रम् च प्रगृहीतमशोभत पांडुरम राक्षसेन्द्र से पूर्णस्ताध यथा हेम मंजरी गर्भे च शुद्धस्फटि विग्रह चामर व्यजने तरजतु सव्य दक्षिणे तेताजल सर्वेथस्थ पृथिवी स्थिताक्षसा राक्षस्रेष्ठ राक्षसैस्तूयमानः सञ्जयाशीर्भिररिन्दमः आससादमः तेजाः सभाम् विरचिताम् तदा सुवर्णरजतास्तीर्णाम् विशुद्धस्फटिकान्तराम् विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ताम् पिशाच शतैः प्रविवेश महातेजः सुकृताम् विश्वकर्मणा तस्यान् तु वैदूर्यमयम् प्रियकाजिनसंवृतम् भेजे रावणः परमासनम् ततः सुशासेश्वरवद्दूतान् लघुपराक्रमान् समानयतमे राक्षसानिति कृत्यमस्ति महज्जाने कर्तव्यमिति शत्रुभिः राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् अनुगेहमवस्थाय विहारशयनेषु च उद्यानेषु च रक्षांसि चोदयम् तो ह्यभीतवत् ते रथाम् प्रचरा एके द्रक्तानेके दृढान्हयान् नागानेकेधिरुरुहुर्जग्मुश्चैके पदातयः सा पुरी परमाकीर्णा संपतद्भिर्विरुचे गरुत्मद्भिरिवाम्बरम् ते वाहनान्यवस्थाय यानानि विविधानि च सभाम् पद्भिः प्रविविश सिंहागिरिगुहामिव राज्ञः पादौ गृहीत्वा तु राज्ञा प्रतिपूजिताः पीठेष्वन्ये बृशीष्वन्ये भूमौ केचिदुपाविशन् ते समेऽद्यसभायाम् वै राक्षसा राजशासनात् यथार्हमुपतस्थोस्ते रावणम् राक्षसाधिपम् मन्त्रिणश्च यथा मुख्या निश्चितार्थेषु पण्डिताः अमात्याश्च गुणोपेताः सर्वज्ञा समीयस्तत्र शतशः शूराश्च सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय ततो महात्मा विपुलम् सुयोग्यम् रथम् वरम् हेम विचित्रिताङ्गम् शुभम् समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य स पूर्वजाया वरजः शशंसनामातपश्चाच्चरणौ शुक प्रहस्तो यथाह पृथ गासना सुवर्णना भूषणना सुसा संसदी राक्षसा ताध्या गुरचंदना परार्ध्या चंधा प्रबुस् समता न चक्रुशुर्ना नृतम कश्चि सभासदो संसिद्धार्थाः सर्व एवोऽग्रवीर्या भर्तुः सर्वे ददृशश्चाननन्ते स रावणः शस्त्रभृताम् मनस्विनाम् महाबलानाम् समितौ मनस्वी तस्याम् सभायाम् प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशः